सहनाभवत् सहनोभुरक्तो सह वीर्यङ्करवावहे तेजस्विनाविद्विषाबहेः ओम् शान्तिः शान्ति शान्ति शान्ति कैवारुणिः वरुणम् पितरमुखतारा अभीजभगवाद्ब्रह्मेजे तस्मारेषवाच अन्नम् प्राणम् चक्षस्रात्रम् मनोवाचमिजे ककुम्भोवाजा कृतो वायिवानि भूतानि जायन्ते ये जातानि जीवन्ते यत्प्रयन्तभिसंविशन्ति तद्विरिज्ञातस्व तद्ब्रह्मेति सर्वोदप्यदा तदपस्तत्वा अन्नम् ब्रह्मे दिव्यजानात् अन्नाद्धिमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ते अन्नम् प्रयन्तभि संविशन्ति तद्भिज्ञाय बहरेव वरुणम् पितरमपसार अधेशपक ब्रह्मेतेहोवाच तपसा ब्रह्मभिजिज्ञासस्व तपो ब्रह्मेते सतपोदप्यता सतपस्तत्त्वा प्राणो ब्रह्मेऽदप्यजानात् प्राणाभ्येव खल्मिमानिभूता निजायन्ते प्राणे न जाता निदेवन्ते प्राणम् प्रयन्नभि संविसन्ते तद्विज्ञाय पुनरेव वरुणम् पितर उपसार अधीजभगवो ब्रह्मेतेहोवाच अपधा ब्रह्मविजिज्ञादस्व तपो ब्रह्मेते तदपोदभ्यता ततपस्तत्त्वा मनोब्रह्मे दव्यजानान् मनसाक्येव कल्मिमानि भूतानि जायन्ते मनसा जातानि जयन्ते मनःप्रयन्तमिदम् पुनरेव वरुणम् पितरमुपसता अधेकभगवो ब्रह्मेते अगमुवाच तपसा ब्रह्म विजिज्ञादस्व तपो ब्रह्मेते सदपोदप्यता सतपस्तत्त्वा विज्ञानम् ब्रह्मे दिव्यजानात् विज्ञानाद्येव खल्मिमा निभूता निजायन्ते विज्ञाने न जाता न जीवन्ते पुनरेकवरुणम् पितमुदसार अधे भगवो ब्रह्मेति रघुहावाच अपसा ब्रह्म विजिज्ञातस्व ब्रह्मेति सर्वत्वा आनन्दाब्रह्मेभ्यजानात् आनन्दाभ्येव भूतानि जायन्ते आनन्देन जातानि जीवन्ते आनन्दम् रयन्तभिम्विशन्ते अभियाभार्गवीवारुणे विद्या परमे व्यामन्प्रतिष्ठिता एवम् वेदप्रतिष्ठते अन्नवाणन्नादो भवते महान् भवति प्रजया मधुभिब्रह्मवीत्या अन्ननिन्द्यान् तत्पदम् प्राणो वान्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेलम् नमन्ने प्रतिष्ठितम् सर्वेलम् न मे प्रतिष्ठितम् वेलप्रतिष्ठते अन्नवानम् नादो भवते महान् भवति प्रजया महान् अन्नन्नपरिचक्षेत तद्वदम् आगो वा अन्नम् ज्योतिरन्नादम् असज्योतिप्रतिष्ठितम् स एतदम् न मन्ने प्रतिक्षितम् स एतदम् न मन्ने प्रतिष्ठितम् वेदप्रतिष्ठते अन्नवानम् नादो भवते महान् भवति प्रजया पृथभिर्ब्रह्मवत्तदेन महान् वेप्या अन्नम् बहु कुर्वेद तद्भदम् पृथिवेव अन्नम् आकाशोऽहम् ष्ठितामन्ये प्रतिष्ठितम् नमन्ये प्रतिष्ठितम् वेदप्रतिष्ठते अन्नवानन्दति प्रदया वसुपति ब्रह्मवर्ततेन महान् कीर्त्या न कञ्चनवसुदौ प्रत्या चक्षेदा तस्मादया दया च विषया वक्पन्नाम् भ्राप्रया अराध्यस्मान्नमित्यालक्षते एतद्वै मुखतोऽन्नगुम् राधम् अस्मान्नम् राध्यते एतद्वा मध्यतोऽन्नगुम् राधाम् मध्यतोऽस्मान्नगुम् राध्यते एतद्वा अन्ततोऽन्नगुम् रार्थम् अन्ततोऽस्मान्नगुम् राध्यते युगेवम् वेदा क्षेम इति वाची योगक्षेमविधि कर्मेतिहस्तयाः गतिरिति पादयाः एवयौ इति मार्षेः समाज्ञाः अथ देवी तृप्तिरिति वृष्टौ बलमिति विद्यते यश इति वशतौ ज्योतिरिति नक्षत्रेषु प्रजातिनमृतमानन्द इत्युपस्थे सर्वमित्याकाशे अत्प्रतिष्ठेत्युपाधेत प्रतिष्ठावान् भवति तन्महः महान् भवति अन्मन इत्युपासेत मानवान् भवति तन्नम इत्युपासेत नम्यन्तेऽस्मै कामाः तद्ब्रह्मेत्युपासेत ब्रह्मवान् भवति तद्ब्रह्मणः परिवर इत्युपासीत पर्येण म्रियन्ते शङ्करस्य पत्राः पर्ये प्रियाभ्याद्रव्याः तस्यायम् मरुषे नष्टादादित्ये स एकः स एवंवित् अस्माल्लोकात् प्रेत्य एतमन्नमयमहात्मानपसरम् क्रम्य एतम् प्राणमयमाहात्मानपसरम् क्रम्य एतम् मनोमयमहात्मानमुपसङ्क्रम्य एतम् लोकान् कामान्निकामरोप्य सञ्जरन् एतत्सामगायन्नास्ते हा गुहा गोहा अहमन्नमहमन्नमहमन्नम् अहमन्नादो घटुद्यश्वा घटुदः घटद अहमस्मि समचारिता पूर्वम् देवेभ्यामृतस्य वा इदातिशयि देवमा वामन्नमन्न मनन्दमा मे अहम् विश्वम्भुवनमभ्य सुवर्णज्योतेः यदेवम् वेद नित्युपनिषत् सहनाभवत् सहनभुनक्तो सह वीर्यम् करवामहे वेदस्य नाभते तमस्तु माविजामहे शान, ओम् शान्तिः शान्तिः शान्तिः ओ